अथ त्रयोदशोऽध्यायः वासुदेव उवाच नैतत्कृच्छमनुप्राप्तो भवान् स्याद्वसुधाधिपा यद्यहम् द्वारकायाम् स्याम् राजन् आगच्छेयमहम् द्यूतमनाहूतोऽपि कौरवैः आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन द्यूतम् बहून् दोषान् प्रदर्शयन् वैचित्रवीर्यम् राजानमलम् द्यूतेन वीरसेन सुतो यैस्तु राज्यात् प्रभ्रंशितः पुरा अतर्कितविनाशश्च देवनेन विशाम्पते सातत्यम् च प्रसङ्गस्य वर्णयेयम् यथा तथम् स्त्रियोक्षामृगयापानमेतत्कामसमुत्थितम् दुःखम् चतुष्टयम् प्रोक्तम् यैर्नरो भ्रश्यते तत्र सर्वत्र वक्तव्यम् मन्यन्ते शस्त्रको विशेषतश्च वक्तव्यम् द्योते तद्विदः एकाः द्रव्यनाशोऽत्र ध्रुवम् व्यसनमेव च अभुक्तनाशश्चार्थानाम् वाक्पाष्यम् च केवलम् एतच्चान्यच्च कौरव्यप्रसङ्गिकटुकोदयम् द्यूते समासाद्याम्बिकासुतम् एवमुक्तो यदि मया मम अनामयम् स्याद्धर्मश्च कुरूणाम् कुरु न चेत्स मम राजेन्द्रगृह्णीयान्मधुरं वचः पथ्यं च भरत श्रेष्ठनिगृह्णीयाम्बलेन तम् अथैनमपनीतेन सुहृदो नाम, नाम दुर्हृदः सभासदोऽनुवर्तेरंस्तां सहन्याम् दुरोदरान् असान्निध्यम् तु कौरव्यममानर्तेष्वभूत्तदा येनेदं प्राप्ता भवन्तो द्यूतकारितम् सोऽहमेत्यकुरु श्रेष्ठद्वारकाम् पाण्डुनन्दना अश्रौषम् त्वाम् व्यसनिनं युयुधानाद्यथा तथम् श्रुत्वैव चाहम् राजेन्द्रपरमोद्विग्नमानसः तूर्णमभ्यागतोऽस्मि त्वाम् द्रष्टुकामो विशम्पते अहो कृच्छमनुप्राप्ताः सर्वे स्म भरतर्षभा सोऽहम् त्वाम् पश्यामि सह सोदरैः इति महाभार वनपर्वि अर्जुनागमनपर्वि वासुदेववाक्ये तोदशोध्याय